गरुडपुराणम् प्रेदकाण्डम् धर्मकाण्डम् अध्यायम् वन् श्रीगणेशाय नमः तत्रादिमे द्वितीयांशे प्रेदकाण्डो धर्मकाण्डनामारभ्यते ॐ नमो भगवदेवासुदेवाय नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं चैव ततो जयमुदीरयेद धर्मन् दृढबद्धमूलो वेदस्कन्धपुराणशाखाढ्यः क्रदुकुसुमो मोक्षफलो मधुसूदनपादपो जयदी नैमिषे निमिषक्षेत्रे शौनकाद्यामुनीश्वराः कर्मणामन्दरे सुदम् स्वासीनमिदमब्रुवन् सुदजानासि सकलम् वस्तु व्यासप्रसादः तेन नः सन्दिहानानां सन्देहं चेत्तुमर्हसि यथा तृणजलौकेदिन्यायमाश्रित्य कञ्चन देहिनोन्यदनुप्राप्तिं केचित्वेवं वदन्ति हि केचित् पुनर्यातनानां यामिनामुपभोगतः पश्चाद्देहान्तरप्राप्तिं वदन्ति किमु तत्र सद सूद उवाच साधु पृष्टं महाभागाशृणुध्वं भवताम् पुनः सन्देहो नोपपद्येतलोकार्थम् किल पृच्छताम् तदहं कृष्णगरुडसंवादद्वारकम् द्विजाः अपाकरिष्ये सन्देहम् भवताम् भाविदात्मनां नम य एनम् समुपाश्रिताः अञ्जस्तरन्ति संसारसागरम् पुनदीमिव एकदा वैनते यस्य लोकानां लोकनस्पृहा बभूव सोधबभ्रामतेषु नाम सपातालं भुवं स्वर्गं भ्रान्द्वा लब्धशमाशयः लोकदुःखेनादिदुःखी पुनर्वैकुण्डमागमद न रजो न तमश्चैव सत्त्वं ताभ्यां च मिश्रितं यत्र प्रवर्ततेनैव सत्त्वमेव प्रवर्तते न यत्र मायानाशश्च न चैरागादयोमलाः श्यामा वदादा सुरुच शतपत्रविलोचनाः सुरासुरार्चिदा यत्र गणाविष्णोः सुपेशसः पिशङ्गवस्त्राभारणा मणियुङ् निष्कभूषिताः चतुर्भुजकुण्डलिनो मौलिनो मालिनस्तद्धा भ्राजिष्णुभिर्विमानानां पङ्गिभिर्ये महात्मनाम् द्योदन्ते द्योदमानानां प्रमदानां च पङ्क्तिभिः श्रीर्यत्र नानाविभवैर्हरेः पादौ मुदार्चति हरिं गायदि दोलास्तं गीयमानालिभिः स्वयं ददर्श श्रीहरिं तत्र श्रीपदिं सत्वदां पदिं, पदिं। जगतपदिं यज्ञपदिम् पार्श्वदैपरिषेविदम् सुनन्दनन्दप्रबलार्हणमुख्यैर्निरन्तरम् भृत्यप्रसाद सुमुखमाय तारुणलोचनम् किरीटिनं कुण्डलिनं श्रिया वक्षसि लक्षितं पीतां सुखं चतुर्बाहुं प्रसन्नहसिदाननम् अभ्यर्हणासनासीनम् ताभिशक्तिभिरावृतं प्रधानपुरुषाभ्यां च चा महदा चाकमा तथा एकादशोन्द्रियैश्चैव पञ्चभूतैस्तथैव च स्वरूपे रममाणं स्वरूपे रममाणं तमीश्वरं विनदा सुधः हृष्यतनूरुहः लोजनाभ्यामश्रुमुञ्जन्प्रेमग्नो ननामः नमागदं नदं स्वीयवाहनं विष्णुरब्रवीद भूमिकालङ्किता पक्षिं स्त्वये यन्त मनेहसं गरुड उवाच तव प्रसादाद्वैगुण्डत्रैलोक्यं सचराचरं मया विलोकितं सर्वं जगस्तावरजङ्गमं भूर्लोकात्सत्यपर्यन्तं पुरं याम्यं विना प्रभो भूर्लोकः सर्वलोकानां प्रचुरः सर्वजन्तुषु मानुष्यं सर्वभूतानां भुक्रिमुक्र्यालयं शुभम् अध नाम लोको न ना भूतो न भविष्यति गायन्ति देवा किल गीदगानि धन्यास्तु ये भारतभूमिभागे स्वर्गापवर्गस्य फलार्जनाय भवन्ति भूय पुरुषा सुरत्वाद् प्रेतकौक्षिप्यदेकस्मात् पञ्चरत्नं मुखे कथम् धस्ता चालिदा दर्भा दर्भापादौ याम्यां व्यवस्थितौ किमर्थं पुत्रपौत्राश्च तस्य तिष्ठन्ति चाग्रदः किमर्थं दियदे दानं गोदानमपि केशव बन्धुमित्राण्या मित्राश्च क्षमापयन्ति तत्कथम् तिलालोहं हिरण्यं च कर्पासं लवणं तथा सप्तधान्यं क्षिदीर्गावो दीयन्ते केन हेतुना कथं हिम्रियते जन्तुर्मृतो वै कुत्र गच्छति अधिवासशरीरं च कथं हिश्रयदे तदा शवं स्कन्दे वहेत्पुत्रो अग्निदा च पौत्रकः आज्येनाभ्यञ्जनम् कस्मात् कुद एका हुदि क्रिया वसुन्धरा किमर्धं च कुद स्त्रीशब्दकीर्तनं यमसूक्तं किमर्धं च उदीच्यादिशमाहरेद पानीयमेकवस्त्रेण सूर्यबिम्बनिरीक्षणं यवसर्षप दूर्वास्तु पाषाणे निम्बपत्रकं वस्त्रं नरश्च नारी च विदध्यादधरोत्तरम् अन्नाद्यं गृहमागत्य न भोक्तव्यं जनैः सह नवकांश्चैव पिण्डांश्च किमर्थं दददे सुदाः किमर्थं चत्वरे दुग्धं यात्रे पक्वेच मृन्मये मृण्मये काष्ठत्रयं गणाबद्धं कृत्वा रात्रौ चतुष्पदे निशायां दीयदे दीपो यावदब्धं दिने दिने दाहोदकं किमर्थं च किमर्थं च जनैः सह भगवन्नादिवाहश्च नवः पिण्डाः प्रदापयेद कथं देयं पितृभ्यश्च वाहस्यावाहनं कथम् इदं चेत् दे देवकस्मात् पिण्डं प्रदापयेद किं तत् प्रदीयते तस्य पिण्डदानाद्यनन्तरम् अस्ति सञ्चयनं चैव खडस्फोटं तथैव च द्वितीयेऽह्निकुदस्नानं च दुर्धे सा अग्निके द्विजे दशमे किम्मलस्नानं कार्यं सर्वजनैः सह कस्मात् तैलोद्वर्तनं च स्कन्द हगृहं नयेद तैलोद्वर्तनकं चापि दधुस्थूलजलाशये दशमेघनियत्पिण्डं तद्द्यादामिषेणदु पिणाञ्चैकादशे कस्माद्वृषोत्सर्गादिपूर्वकम् भाजनोपानहौच्छत्रं वासंसि त्वं गुलीयकम् त्रयोदशेह्निधेयं स्यात्पददानं किमर्थकं श्राद्धानि षोडशैदानि अब्धं यावत् कुतो कडः अन्नाद्येनोदकेनैव षष्ट्याधिकशतत्रयम् दिने दिने ददादव्यं खडान्नं प्रेततृप्तये प्राप्ते काले वै म्रियते अनित्या मानवाः प्रभो छिद्रं तु नैव पश्यामि कुतो जीवः स निर्गतः कुतो गच्छन्ति भूतानि पृथिव्यापो मनस्तद्धा तेजोवदस्वमेनाथ वायुराकाशमेव च कुत कर्मेन्द्रियाणिह पञ्चबुद्धीन्द्रियाणि च वायवश्चैव वा पञ्चैदे कथं गच्छन्ति चात्ययं लोपमोहादयः चैव तस्कराः कृष्णाकामो पुण्यं वाप्यथवा पुण्यं यत्किञ्चित् सुकृतं नष्टे देहे कुतो यान्तिदानानि विविधानि च सपिण्डनं किमर्थं च पूर्णे संवत्सरेऽपि वा प्रेदस्य मेलनं केशं किं तत्र कारयेत् मूर्च्छनात् पननाद्वापि विपत्तिर्यजि विपत्त्यर्यति जायते ये दग्धा ये त्वदग्धाश्च पतिता ये न रा भुवि यानि चान्यानि भूतानि तेषामन्ते किं पापिनो ये दुराचारा ये चान्ये गतबुद्धयः आत्मकादिब्रह्महाजस्तेयि विश्वासखातकः कपिलायापिच्छूद्रो यः पठेदिदमक्षरं दिदमक्षरम् वा का गतिस्तस्य माधव शूद्रस्य ब्राह्मणि भार्या सम् यदा भवेद भीदोऽहं वा तन्मेवदजगत्प्रभो तन्मे वद जगत्प्रभो अन्यच्च शृणो विश्वात्मन्मया कौतुकिनारयाद लोकां लोक यदा लोके जगाहे विश्वमण्डलं तत्रा जनि जनान् दृष्ट्वा दुःखेष्वेव निमज्जतः स्वान्दे मे दुर्धरापीडातपीडातो गरीयसी कृति जातेभ्यो भूमौ मृत्युरुगादिभिः इष्टवस्तुवियोगैश्च पादाले मामकम्भयम् एवम् न निर्भयम् स्थानमन्यदेश भवत्पदाद असत्यं स्वप्नमायागत् कालेन तत्रा तत्राभिभारदे वर्षे बहुदुःखस्य भागिनः जना दृष्टा मया रागद्वेषमोहादिविप्लुताः केजि केचिदण्टाकेकराक्षास्खलद्वाच स्तुपभ कञ्चाकाणाश्च बधिरा मूखा पुष्टाश्च लोमशाः नानारोगपरीताश्च ख पुष्पाचाभिमानिनः तेषाम् दोषस्य वैचित्र्यं मृत्यो दृष्ट्वा प्रसुमनप्राप्तः को मृत्युश्चित्रदा कथम् मृतिर्यस्य विधानेन मरणादप्यनन्तरम् विधिनाब्दक्रिया यस्य न स दुर्गतिमाप्नुयात् ऋषिभ्यस्तु मया पूर्वमिति सामान्यतश्रुतम् ज्ञानाय ना तद्विशेषस्य पृच्छामि दामि दिप्रभो म्रियमाणस्य किं कृत्यं किं दानं वासवानुज वाह मृत्योरन्तराले को विधिर्दहनस्य च सद्यो विलम्बदो वा किं देहमन्यं प्रपद्यदे संयमन्यां क्रम्यमाणमावर्षं का मृतिक्रिया प्रायश्चित्तं दुर्मदे किं पञ्चकाधिमृतस्य च प्रसादं कुरु मे मोहं चेत्तुमर्हस्य अशेषदः सर्वमन्दे मया पृष्टं ब्रूहि लोकहिताय वै इति श्रीगारुडे महापुराणे धर्मकाण्डे प्रेतकाण्डे श्रीकृष्णगर संवा प्रश्र प्रपंचो नाम प्रथम